अथ चतुर्थकाण्डे पञ्चमप्रश्नप्रारम्भः रुद्रप्रश्नप्रारम्भः नमस्य मन्य इषवे नमस्ते, नमस्ते, नमस्ते बाहुप्या बाहुभ्यामुददे नमः यात इषः शिवतमा शिवम् रघोवचे तनुः शिवा शरव्या यातवतया नो रुद्रमृडया यादे रुद्रशिवा तनोरघोरापापकाशिनी ययानस्तनुभाषन्तमया गिरिशन्ताभिजाकशीः यामिषम् गिरिशन्तहस्तेऽपि भर्ष्यस्तवे शिवाङ्गिरिद्रताङ्गुरबाहिगो पुरुषम् जगद श्रेरवचसा त्वागिरिषाच्छा वदामसि यथा न सर्वविद्यगदयक्ष्मणो समनासद अध्यवाचदधिभक्ता प्रथमा दैव्याभिषक अशे गश्च सर्वाद्यम् वयम् सर्वाश्च या तु धान्यः असौ यस्ताम्रा ऋरुणमुदभ्रः सुमङ्गलः गोरुत्राभितो दिक्षश्रुता सहस्रशो वैषा मोहेडैमहे असौ योऽ सर्पदिनेलग्रीवो विलोहितः उदैनम् गोपादृशन्नदृशन्नदहार्यः उदैनम् विश्वा भूतानि च दृष्टा मृडयातिनः ममास्तनेन ग्रीवाय सहस्राक्षाय मीठुषेः तो ये यस्य सत्तानोऽहन्देभ्यो करम् नमः प्रमञ्जन्मनस्व उभयोराज्ञो याश्च देहस्तैषवराता भगवा वप भवदत्यधनस्वगो सहस्राक्षसते सुते श्रीजैकल्याणाम् मुखाशिवानः सुमना भवनकपत्निना विशल्यो बाणवाभूता ेषव आपरस्य निषङ्गति या ते हेतुर्मे दृष्टमहस्ते भगोवते जनो तयास्मान् विश्वदस्त्वमयक्ष्मया परिभुज नमस्ते अस्मायधाया तदायधिष्णवे भात्यामुदते नमो बाहुध्यान्तवधन्मने परिते जन्मनो हेतुरस्मान्वृणक्तुविश्वदः अथ य इषु दस्तारे अस्मन्निधेहितम् नमो हिरण्यमाहवेशे नान्ये नमो नमो वृक्षेभ्य हरिकेशेभ्यः पुशोनाम् पदये नमो नमःञ्जनाय पदये नमो नमो वक्षुशाय पदये नमो नमो हरिकेशायपभीतिरे पुष्टानाम् पदये नमो भवस्य हेत्रे पदये नमो त्राय तथा विरेक्षेत्राणां वदये नमो नमः सूताया हंजाय वनानां पदये नमो नमो रोहिताय स्थवनये वृक्षाणां वदयेन मो नमो मन्त्रणे वाणिजाय कक्षाणां पदये नमो नमो भुवन्तये वारिवस्कृतायौषधीनां पदये नमो नम उच्चैर्घोषाय क्रन्दय देवदीनां वदय नो कृत्स्नविहिता यथावदे सत्त्वनाम् वतये नमः नमः समानाय न व्याजिन आ व्याजने नाम्बदये नमो नमः निशङ्गिणे स्तेनाम्बदये नमो नमा शङ्गिन इषमदेदस्तानाम्बदये नमो नमो वञ्चते परिवञ्चते स्तायूनाम्बदये नमो नमो निचै नवे परिचरायारण्या नाम्बदये नमो नमस्रकालिख्यादिष्णताम् वदये नमो मो नम सुमध्या न कन्द्र प्रकृन्तानां पदये नमो नमः ऊष्मेशिने गिरीशराय वृन्दानां पदये नमो नमः न मो नमागन्मानेभ्यः प्रतिदधानेभ्यश्च वो न मानमायच्छद्भ्य विश्वेद्भ्यश्च वो नमो नमास्यद्या क्रद्भ्यश्च वो नमो नमस्तिष्ठद्भ्यो यावद्भ्यश्च नमो नमः स्वपदिभ्यश्च वो नमो नमो अश्वेभ्यश्वपदेभ्यश्चो नमः नम आ व्याधिनेभ्यो विविध्यङ्गेभ्यष्टवानमो नमगणाभ्यस्तवानमो नमो गृत्सेभ्यो वृत्सपदेभ्यष्टवनमानम व्रातेभ्यो व्रातपदिभ्यष्टवानमानमो गणेभ्यो गणपदेभ्यष्टवनमानमविरूपेभ्यो विश्वरूपेभ्यष्टवनमानम महाध्याक्षुल्लकेभ्यस्तवनमानम स्त बोन बोन बोधे पदेभ्यश्च वनमानमसेनाभ्य सेनानिभ्यश्च वनमानमहोभ्यः संग्रहेतुभ्यश्च वनमानमस्तक्षभ्य रथकारेभ्यश्च वनमानमः कुलालेभ्यः कर्मारेभ्यश्च वनमानमः कुञ्जिष्टेभ्य निशानमानम यजगृद्भ्य धन्वकृद्भ्यश्च वनमानम मृगयेभ्यश्वभ्यश्च वनमानमश्वाभ्यश्वपदेभ्यश्च नमः नमो भवाय च रुद्राय जनमशर्णाय च पशुपदये जनमो नेलक्रीवाय च शितिकण्ठाय जनमकिने जगेशाय जनमसहस्राक्षाय च शतधन्वने च शिविविष्टाय जनमो मेषष्टमाय च शुमदे जनमो प्रस्नाय च वामनाय जनमो बृहदेशीयसे जनमो च संवृद्धने जनमोऽग्र्याय च जनम आश्रमे चा जिराय जनमश्रीक्रियाय जशीभ्याय जनम ऊर्म्याय च सम्याय चनमस्रा तस्याय च मा ज्येष्ठाय जगनिष्ठाय जनमः पौर्वजाय चापरजाय जनमो मध्यमाय चापगल्भाय जनमो जघन्याय जबुद्ध्याय जनमसौभ्याय जप्रतिशर्याय जनमो याम्याय चक्षेम्याय जनम उर्वर्याय दकल्याय जनमश्लोक्याय जावसान्याय जनमोऽवन्याय ज कक्ष्याय जनमश्रवाय जप्रतिश्रवाय जनम आशुषेणाय चाशुरथाय नमः शूरा गजावभिन्ददे जनमो धर्मिणे जन रोथिरे जनमो भिल्मिने जगवने मम श्रुताय जश्रुतसेनायज नमोन्धव्याय चाहन्याय च नमो धृष्णवे जमृषाय च नमो धोताय च प्रहिताय च नमो निषङ्कणे जेषु धिमदे चनमस्तीक्ष्णेशवे च युधने जनमस्वायुधाय च सुरण्णने जनमसृत्याय चमथ्याय च नमकाव्याय च नीप्याय जनमस्वोय च धरस्याय च ज्ञाय विद्युत्याय जनम इन्द्रियाय दा दत्याय जनमो वात्याय दरेष्म्याय जनमो वास्तव्याय च वास्तवाय च नमः सोमाय च रुत्राय जनमस्ताम्राय चारुणाय जनमशङ्गाय च पशुपदये जनम उग्राय च भीमाय जनमोऽग्रे वधाय च दूरे वधाय जनमो हंसे जहनीयदे जनमो वृक्षे हरिवे यो नमस्ताराय नमशम्भवे जम यो भवे जनमशङ्कराय जमयष्कराय जनमश्रिवाय जदराय जनमस्तीर्थ्याय च कौल्याय जनमः पार्याय जावा ्याय धनमप्रतरणाय चात्तरणाय च नमनाचार्याय चालाद्याय धनमस्यष्प्याय चैन्याय च नमस्य गत्याय च च नम हिरण्याय च प्रवथ्याय धनमह्शिलाय चक्षयनाय धनमह्कर्चनय जनस्तय जनमागोष्ठ्याय जगृह्याय जनमस्त्याय जगेत्याय जनमकाट्याय जगः परेष्ठाय जनमसुष्क्याय च हृत्याय जनमलोक्याय चालक्याय जनमऊर्म्याय च ्याय जनमोपगमनाय चाभिघ्नते जनमाख्यते च प्रक्षिदते दे जनमोऽक्यलिकेभ्यो देवानाकम् हृदये ह्यो नमाविक्षीणके विचिह्नकेभ्यो नमः निर्हते ह्यो नमःभ्यः द्रा अन्धदस्पदे दरिद्रण्ये लोहिता ेषाम् पुरुषाणामेषाम् पुशोनाम् मा मेल्मा रामा येषाम् निञ्जनामद यादे रुद्रशिवातनो शिवा विश्वाह शिवा भेषरी शिवारुद्रस्य भेषदीदया नो मृणजीवसे हिमागोरुद्राय समुदेकवर्तिने क्षेत्रे राय प्रभरामहे मतिम् हिमदे चतुष्पदे विश्वम् पुष्टम् ग्रामे अस्मिन्ननातरम् पुराणोरुत्रो तनोमयस्मृतिक्षेत्रे याय न मथाविधे मते यच्छन्त्यमनुरायस्यामथवरुद्रप्रणेतौ मानवहान्तमतमानार्थकम् मानवक्षन्त मतमानवक्षितम् मानाविधे पितरम् मदमातरम् भुजामानस्तनवोरुद्ररीरिष मानस्तोकेतने वीरान्ना रुत्रभाषिताविष्मन्तो नमसा विजयतेन स्मे कक्षाजनोजदेव प्रोह्यदा जनः शर्म यच्छत्रिपुरहाः स्तुविश्वदङ्गर्तसदयुवानम् मृगन्न वेममुपहत्वमग्रम् रुडाजरित्रे रुत्रस्तवानो अन्यन्ते अस्मन्विव बन्धुसेनाः परुणात्रस्य हेतुरपुरुणत्वपरिद्वेषस्य धर्मदिनकायोः आस्थ्या मघवर्ध्यस्तनश्वमेढस्त्वकायतनयाय मृडया मेदमशिवानश्वमनाभव परमे वृक्षायुधम् यथा यकृत्तिम् वसा न आचरपि न कम्भिगहि कृलोहितनमस्तेऽस्तु भगवः यास्ते नगो हेकयान्यमस्मन्यवबन्धुताः सहस्राणि सहस्रताबाहोस्तहेतया सामीशानाचीनामुखाकृधि सहस्राणसहस्रशोय रत्रादिगोम्याः एषा गोसहस्रयो जने वसन्मानितन्मधि अस्मिन्महत्यर्णवे अन्तरिक्षे भवादि नीलक्लीवाश्रितिकण्ठा शर्वाक्षमाधराः नीलग्लीवाश्रुतिकण्ठादिवगोरत्रा उपश्रुताः ये रक्षेश वृक्षेषु सत्पन्यधानेन ग्रीहाभिलोहिताः भवतानामधिपदयो विशिखादप्रवर्तिनः ये अन्नेषु विविध्यन्ति पात्रेषु भवतो जनान् एताम् पथिरक्षयाण वृदा हिव्युधः ये तीर्थानि प्रचरन्ति सृकावन्ताषङ्गिनः न एतावन्तस्य भूयागूतस्य दृशार्दावितस्थिरे तैागूसहस्रयो ष्मायश्चनाथेष्टिदम् वाजम् वेदधामि चतुर्थकाण्डे पञ्चमः प्रश्न समाप्तः